अथैकाशीतितमः सर्गः विज्ञायतु मनस्तस्य राघवस्य महात्मनः सनिवृत्याह वात्तस्मात् प्रविवेशपुरम् ततः सोऽनुस्मृत्यवधम् तेषाम् तरस्विना क्रोधताम् रेक्षणः शूरो निर्जगामाथरावणिः स द्वारेण निर्ययौ राक्षसैर्वृतः इन्द्रजित्स्व महावीर्यः पौलस्त्यो देवकण्टकः इन्द्रजित्तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ प्रणायाभ्युद्यतौ वीरौ मायाम् प्रादुष्करोत्तदा इन्द्रजित्तुरथे स्थाप्य सीताम् मायामयीम् तदा, माया तदा। बलेन महता वृत्य तस्या वधमरोचयत् मोहनार्थम् तु सर्वेषाम् कृत्वा सुदुर्मतिः हन्तुम् सीताम् यवसितो वानराभिमुखो ययौ तम् दृष्ट्वा त्वभि निर्यान्तम् सर्वे ते का नौकसः उत्पेतुरभिसङ्क्रुद्धाः शिलाहस्ता युयुत्सवः हनूमान्पुरतस्तेषाम् जगामकपिकुञ्जरः प्रगृह्यसु महच्छृङ्गम् पर्वतस्य दुरासदम् सददर्शहतानन्दाम् सीतामिन्द्रजितो रथे एकवेणीधरान्दीनामुपवासकृशाननाम् परिक्लिष्टैकवसनाममममृजाम् राघवप्रियाम् रजोमलाभ्यामालिप्तैः सर्वगात्रैर्वरस्त्रियम् ताम् निरीक्ष्य मुहूर्तम् तु मैथिलीमध्यवस्य च बभूवाचर दृष्टा हि तेन सा जनकात्मजा अब्रवीत्ताम् तु शोकार्ताम् निरानन्दान्तपस्विनी दृष्ट्वा रथस्थिताम् दीनाम् राक्षसेन्द्रसुतश्रिताम् किम् समर्थितमस्येति चिन्तयन् स महागपिः सहतैर्वानरश्रेष्ठैरभ्यधावत रावणिम् तद्वानरबलम् दृष्ट्वा रावणिः क्रोधमूर्च्छितः कृत्वा विकोशम् निस्त्रिंशम् मूर्ध्नि सीतामकर्षयत् ताम् स्त्रियम् पश्यताम् तेषाम् ताडयामास क्रोशन्तीम् राम रामेति माययायोजिताम् रथे गृहीतमूर्धजाम् दृष्ट्वा हनूमान् दैन्यमागतः दुःखजम् वारिनेत्राभ्यामुत्सृजन्मारुतात्मजः ताम् दृष्ट्वा चारु सर्वाङ्गीम् रामस्य महिषीम् प्रिया अब्रवीत्परुषम् वाक्यम् क्रोधा द्रक्षोऽधिपात्मजम् दुरात्मन्नात्मनाशाय केशपक्षे परामृशः ब्रह्मर्षीणाम् कुले जातो राक्षसीं योनिमाश्रितः धिक्त्वाम् पापसमाचारम् यस्य ते मतिरीदृशी दृशंसा नार्य कर्म घृणा तेनास्ति निर्घृणा चितागृहाच्च राज्याच्च रामहस्ताच्च मैथिली किम् तवैषा परार्धा हि यदेनाम् हंसि निर्दया सीताम् हत्वा तु न चिरम् जीविष्यसि कथञ्चन मधार्हकर्मणा तेन मम ये च स्त्रीघातिनाम् लोकालोकवध्यैश्च कुत्सिताः इह जीवितमुत्सृज्य प्रेत्य तान् इति ब्रुवाणो हनुमान् सायुधैर्हरिभिर्वृतः अभ्यधावत्सु सङ्क्रुद्धो राक्षसेन्द्रसुतम् प्रति आपतम् तम् महावीर्यम् तदनीकम् वनौकसा रक्षसाम् भीमकोपानामनीकेन न्यवारयत् बाणसहस्रेण विक्षोभ्य हरिवाहिनीम् हनूमन्तम् हरिश्रेष्ठमिन्द्रजित् प्रत्युवाचः सुग्रीवस्त्रम् च रामश्च यन्निमित्तमिहागताः ताम् धिष्यामि वैदेहीमद्यैव तव पश्यतः इमाम् हत्वा ततो रामम् लक्ष्मणम् त्वाम् च वानर च वधिष्यामि तम् चान्यम् विभीषणम् न हन्तव्या स्त्रियश्चेति यद्ब्रवीषि प्लवङ्गमा पीडाकरममित्राणाम् यच्च कर्तव्यमेव तमेवमुक्त्वा रुदतीम् सीताम् मायामयीम् च शितधारेण खड्गेन निजघानेन्द्रजित् स्वयम् यज्ञोपवीतमार्गेण छिन्ना तेन तपस्विनी सा पृथिव्याम् पृथुश्रोणी पपातप्रियदर्शना त्वामिन्द्रजित् हत्वा हनूमन्तमुवाचः मयारामस्य रामस्य प्रियां प्रियाम् एषा विशस्ता वैदेही निष्फलो वः परिश्रमः ततः खड्गेन महता हत्वा तामिन्द्रजित् स्वयम् हृष्टः स रथमास्थाय ननादचमहास्वनम् वानराशुश्रुवः शब्दमदूरे प्रत्यवस्थिताः व्याधितास्य न तथा तु सीताम् विनिहत्य दुर्मतिः प्रहृष्टचेताः स संहृष्टूपीक्ष्य वनरा विषण सदु द्रुवु इशे श्रीमद्मा आदि का्युद्धकांडे एक सर्ग